अथ तृतीयोऽध्यायः अर्जुन उवाच जायसि चेत्कर्मणस्ते मता बुद्धिर्जनार्दन तत्किं कर्मणि घोरे माम् नियोजयसि केशव व्यामिश्रेणेव वाक्येन बुद्धिम् मोहयसीव मे तदेकं वदनिश्चित्य येन श्रेयोऽहमाप्नुया श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा ज्ञानयोगेन साङ्ख्याना कर्मयोगेन योगिना न कर्मणामनारम्भात् नैष्कर्म्यम् पुरुषोश्नुते न च सन्न्यसनादेव समधिगच्छति न हि कश्चित् क्षणमपि जातो तिष्ठत्यकर्म कृत् कार्यते ह्यवशत्कर्म सर्वप्रकृतिजयगुणैः कर्मेन्द्रियाणि संयम्य य इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते यस्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्मयोगं असक्तः विशिष्यते नियतम् कुरु कर्मत्वम् कर्म ज्यायोह्यकर्मणः शरीरयात्रापि च ते न यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयम् कर्म बन्धनः तदर्थम् कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञाः पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एषवोऽस्तिष्टकामधुक् देवान् भावयतानेन ते देवा भावयन्तु वः परस्परम् श्रेयः परमवाप्स्यथ इष्टान् भोगान् हि वो देवाः दास्यन्ते यज्ञभाविताः तैर्दत्ता यो भुङ्क्तेस्ते न एव सः यज्ञशिष्टाशिनः सन्तः मुच्यं ते सर्वकिल्बिषैः भुञ्जते ते पापाः के अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः यज्ञाद्भवति पर्जन्यः यज्ञः कर्म समुद्भवः कर्म ब्रह्मोद्भवम् विद्धि ब्रह्माक्षरसमुद्भवम् तस्मात् सर्वगतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् एवम् प्रवर्तितञ्चक्रम् नानुवर्तयति हयः अघयुरिन्द्रिया रामः मोघम् पार्थस जीवति यस्त्वात्मरतिरेव स्यात् आत्मतृप्तश्च मानवः आत्मन्येव च सन्तुष्टः तस्य कार्यम् न विद्यते नैव तस्य कृतेनार्थः न कश्चन न सर्वभूतेषु कश्चिदर्थौ व्यपाश्रयः तस्मादसक्तः सततम् कार्यं कर्म समाचर असक्तोत्याचरन् कर्म परमाप्नोति सम्पश्यन् कर्तुमर्हसि यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः स य कुरुते लोकस्तदनुवर्तते न मे पार्थास्ति कर्तव्यम् त्रिषु वाप्तमवाप्तव्यम् वर्त एव च कर्मणि यदि क्यहम् न वर्तेयम् जातु कर्मण्यतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थसर्वशः उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहम् शङ्करस्य च कर्ता स्याम् उपहन्यामि मा प्रजाः सक्ता कर्मण्यविद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वांस्तथा सक्तः चिकीर्षुर्लोकसङ्ग्रहम् न बुद्धिभेदम् जनयेत् अज्ञानाम् कर्मसङ्गिनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः गुणागुणेषु वर्तन्ते इतिमत्वान मत्वा न सज्जते प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ता न कृत्स्नविदो मन्दा कृत्स्नविन्न विचालयेत् मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतस निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तो न सूयन्तः मुच्यन्ते तेऽपि कर्मभिः ये त्वे तदभ्यसूयन्ताः नानुतिष्ठन्ति मे विद्धि नष्टा न चेतसः सदृशम् चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि प्रकृतिम् यान्ति भूतानि निग्रह किम् करिष्यति इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्नवशमागच्छेत् तौ ह्यस्य परिपन्थिनो श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठिताद् स्वधर्मे निधनं श्रेयः परधर्मो भयावहः अर्जुन उवाच अथ केन प्रयुक्तोऽयम् पापञ्चरतिपूरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः श्रीभगवानुवाच काम रजोगुणसमुद्भवः महाशनो महापाप्मा विद्येन मिह वैरिणम् धूमेनाव्रियते वह्निः यथा दर्शो मलेन च यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेणानलेन च इन्द्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते एतैर्विमोहयत्येषः ज्ञानमावृत्य देहिनम् तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ पाप्मानम् प्रजहित्येनम् ज्ञानविज्ञाननाशनम् इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मन जहिशत्रुं महाबाहो कामरूपं दुरासदम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः